हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे द्विचत्वारिंशे सर्गः राज्ञो भुवि निपतनं श्रीरामस्य कृते विलपनं च कैकेयी कर्तृक निजाङ्गस्पर्शस्य राज्ञा निषेध कैकेय्या परित्यागश्च कौसल्याया सेवकानां च सहकारेण तस्य कौसल्याभवने गमनम् श्री श्रीरामस्य कुते तेन दुःखस्य एवानुभवकारणम् यावत्तु यावत्तो तस्य रजो रूपम् अदृश्यत नैवेक्ष्या कुवरस्तावत् सञ्जहारात्मचक्षुषी यावद्राजा प्रियम् पुत्रम् पश्यत्यत्यन्तधार्मिकम् तावद् व्यवर्धते वास्य धरण्याम् पुत्रदर्शने न पश्यति रजोप्यस्य यदा रामस्य भूमिपः तदा तश्च विषण्णश्च पपात धरणीतले तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गन परम् चास्याम् जगात् पार्श्वम् कैकेयीता मुसुमध्यम सान्द्रेन च सम्पन्नौ धर्मेण विनिय विनये न च उवाच राजा कैकेयीम् समीक्ष्य व्यसितेन्द्रियः कैकेयी मां काङ्गानि मास्त्राक्षि पापनिश्चये न द्रष्टुमिच्छामि न भार्या न च बान्धवी ये च त्वाम् मनुजीवन्ति नाहं तेषां न ते मम केवलार्थ हि त्वाम् त्यक्त धर्मां त्यजाम्यहम् अगृह्णाम् यच्छते पाणिम् अग्निम् पर्यणयञ्च अनुजानामि तत्सर्वम् अस्मिन्लोके लोके परत्र च चे भरत चेत् प्रति तस्यात् राज्यं प्रत्येदव्ययम् यन्मे सुद्यात् पितरथम् मां दत्त समागमत् अथ रेणुसमुध्वस्तम् समुत्थाप्य नरधिपम् निवर्तत तदा देवी कौसल्या शोकवर्जिता हत्वैव ब्राह्मणम् गामात् पृष्ट्वाग्निम् इव पाणिन अन्वतप्यत धर्मात्मा पुत्रं सञ्चिञ्च राघवम् निवृत्यैव निवृत्यैव सीदतो रथवत्मसु राज्ञो नास्ति वृत्तस्यांशुमतो यथा विललापसदुःखात् प्रियम् पुत्रम् अनुस्मरन् नगरान्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् तथा ब्रवीत् वाहनानाम् च मुख्यानाम् वहताम् तम् आत्मजम् पदानि पथि दृश्यन्ते सर्वमा न दृश्यते यत् चेते चंदन रूषि विज्यम महाम सुतम स नूनम कुच देवाद्य वृक्ष मूलम उपाश्रिता का यदि वाजभन उपधार शैष्यते उहा कृप पांशु गुंठितासन सश्रवण करेणूनामि वर्षभ द्रक्षन्ति पुरुषै पुरुष दीर्घ बाहुम्बनेचर राममुत्थाय गच्छन्तम् लोकनाथम् अनाथ व नूनं जनक श्रेष्ठा सुता सुख सुदोषितः कण्टकाय गमिष्यति अनभि ज्यावनानाम् सा नूनम् बाह्यम् उपविशति च पदान्नर्दितम् श्रुत्वा गम्भीरम् रोम हर्षणम् स कामा भव विधवा राज्यमावत् न हि तम् विना जीवितुमुत्सहे इत्येवम् विलपन् राजा जनौघेनाभिसंवृतः अपस्नात इवादिष्टम् प्रविवेश गृहोत्तमम् शून्य च सर् वेष्माताम्भृताय पणवेदिकार दुर्बल दुःखाताम् नात्याकीर्ण महापथम् सामवेक्ष्य पुरीं सर्वाम् राममेवानुचिन्तयन् विलपन्ता विचद्राजा गृहम् सूर्य इवाम्बुदम् ्रदम् इवाक्षोभ्यम् सुपर्णेन हृतोरगम् रामेण रैतम् वेष्म वैदेह्या लक्ष्मणेन च अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः वाच मृदुमन्दासम् वचनं दीनमात्सरम् कौसल्याय गृहम् शीघ्रम् राममातुर्नयन्तु माम् न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति इति ब्रुवन्तम् राजानम् अनयन्द्वारदर्शिनः कौसल्याय गृहम् तत्र निवेश्यत विनीतवत् ततस्तस्य प्रविष्टस्य कौसल्याय निवेशनम् अधिरुह्यपि चयनम् बभूव लुलितम् मनः पुत्रद्वयविहीनम् च स्नुषया च विवर्जितं अपश्येद्भवनम् राजा नश्च चन्द्रम् विवाम्बरम् तच्च धृष्ट्वा महाराजो भुयम् मुद्यम्य वीर्यवान् उच्चैस्वरेण प्राक्रोशत् हा राम विजासिनौ सुखिता बत संगालम् जीविष्यन्ति नरोत्तमः परिश्वजन्तो ये रामं द्रक्ष्यन्ते पुनरागतम् अथ रात्र्यां तपन्नायाम् कालरात्र्याम् विवात्मनः अर्धरात्रे दशरथ कौसल्यामिदम् अब्रवीत् न त्वाम् पश्यामि कौसल्ये साधु मां पाणिनास्तु च रामम् मे अनुगता दृष्टिः निवर्तते तं राममेवानुविचिन्तयन्तम् समीक्ष देवी शयने नरेन्द्रम् उपविश्याधिकमात्ररूपा विनेश्व सन्तम् विलला प्रकृश्रम् इत्याख्ये वाल्मीकि आदिकाव्ये अयोध्याखण्डे द्विचत्वारिंश स्वर्ग श्रीसीता